अथ पंचचं दशकब मुरारे पाणीजा प्रचार किमीन भागा भूषयचरण कंज मंजुमजी शिंजा श्रवण कुकर तुच्चारुगा मृदु मृदु विहसौ उन्मशद वदन पति केश दृश्यपाद देशौ भुजगळितकरान्तव्यालगत्कङ्कणाङ्कौ मतिमहरतमुच्चैः पश्यताम् विश्वनृणाम् अनुसरति जनौघे कौतुकव्याकुलाक्षे किमपि कृतनिनादम् व्याहसन्तौ द्रवन्तौ बलितवदनपद्मम् पृष्ठतो वासुदेव द्रुतगतिषु पतन्तौ उत्थितौ लिप्तपङ्कौ दिवि मुनिभिर पङ्कैः सस्मितम् वन्द्यमानौ द्रुतमथ जननीभ्याम् सानुकम्पम् गृहीतौ मुहुरपि परिरब्धौ द्राग्युवाम् चुम्बितौ स्नुतकुच स्नुतकुचभरमङ्के धारयन्ती भवन्तम् तरलमतीयशोदा स्तन्यदा धन्यधन्या कपड मध्ये मुग्धः साङ्कुरम् ते दशनमुकुलहृद्यम् वीक्ष्यवक्त्रम् जहर्ष तदनु चरणचारी तारकैः सा बालचापल्यशाली भवनशुकबिडालान् वत्सकांश्चानुधावन् कथमपि कृतःसैर्गोपकैर्वारितो भूः यत्र यत्रोपयातो विवशपतितनेत्रास्तत्र तत्रैव गोप्यः विगळितगृहकृत्या विस्मृतापत्यभृत्या मुरहरमुहुरत्यन्ताकुला नित्यमासन् प्रतिनवनवनीतम् गोपिका दत्तमिच्छन् कलपदमुपगायन् कोमलम् क्वापि नृत्यन् सदययुवतिलोकैरर्पितम् सर्पिरश्नन् क्वचन नवविपक्वम् दुग्धमप्यापिबस्त्वम् मम खलु बलिगेः याचनम् जातमास्तामिह पुनरबलानामग्रतो नैव कुर्वे इति विहितमतिः देव सन्त्यज्य याज्ञाम् दधि घृतमहरस्त्वम् चारुणाचोरणेन तव दधि हृदि रोषो नावकाशम् हृदयमपि मुषित्वा हर्षसिन्धौ न्यधास्त्वम् स मम शमयरोगान् वातगेहाधिनाथ इति पञ्चचत्वारिंशम् दशकम्